हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे प्रथमस्कन्धे पञ्चदशोऽध्यायः श्रीशुक उवाच नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः वा गुरासदृशं नित्यं बन्धनं सर्वदेहिनां धनचिन्तासुराणां हि क्व सुखं तात स्वजनै खलु पीड्यन्ते निर्धना लोलुपाजनः इन्द्रोऽपि न सुखे तादृक् यादृशो भिक्षन् भिक्षुनि त्वः पुण्यस्याधि संसारे त्रिलोके विभवे सति तपन्तम् तापसं दृष्ट्वा मघवत् दुःखितो भवेत् विन्ध्यान् बहु विधानस्य करोति च दिवस्पति ब्रह्मापि विष्णु लक्ष्मीम् प्राप्य मनोरमाम् खेदम् प्राप्नोति सततं सङ्ग्राम्यै असुरै सह करोते विपुलान् यत्नान् तपश्चरति दुश्चरम् रमापतीरपि श्रीमान् कस्यास्ति विपुलम् सुखम् शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् तपश्चर्याम् प्रकुर्वाणोदित्य युद्धकरसदा कदाचिन्न सुखे चेते धनवान्नपि निर्धनस्तु कथं तात् सुखम् प्राप्नोति मानवः जानन्नपि महाभागपुत्रं वाक्षसि महाघोरे संसारे दुःखदे सदा जन्मदुःखम् जरा दुःखं दुःखं च मरणे तथा गर्भवासे पुनर्दुःखम् विष्ठा मूत्रमये पितः दुःखं तृष्ण लोभसमुद्भवम् याञ्चायं परमं दुःखं मरणादपि मानद प्रतिग्रह धना विप्रा न बुद्धि बलजीवनः पराशा परमं दुःखं मरणं च दिने दिने पठित्वा सकलान् वेदान् शास्त्राणि च समन्ततः गत्वा च धनीनां कार्या स्तुतिः सर्वात्मना बुधै एकोदरस्य का चिन्तापत्रमूलफलादिभिः येन केनापि न सन्तुष्ट्या स प्रपूर्यते भार्या पुत्रा तथा पौत्रा कुटुम्बे विपुले सति पूरणार्थम् भद्दुःखम् क्व सुखम् पितरद्भुतम् योगशास्त्रम् वद मम ज्ञानशास्त्रम् सुखाकरम् कर्मकाण्डेखिले तमेऽहम् कदाचन वरकर्माक्षयोपायम् प्रारब्धम् सञ्चितम् तव वर्तमानम् व्यथा न चेत्री त्रिविधम् कर्म मूलजम् जलोकेव सदानारी रुधिरं पिबतीति वै मूर्खस्तु न विजानाति मोहितो भावचेति भोगैर्वीर्यम् धनम् पूर्णम् मनः कुटीरभाषणै कान्ताहति सर्वस्वम् कश्चन सादृशोपरः निद्रा करोति वञ्चितो धात्रा दुःखाय न सुखाय च श्रोतोवाच एवंविधानि वाक्यानि श्रुत्वा व्यासुकस्य च सम्प्राप महतीं चिन्तां किं करोमि च संशयम् तस्य शुश्रूरुश्रूणि लोचना दुःखजानि च वेपथुश्च शरीरे भूद्रानिं प्राप मनस्तथा शोचन्तं पितरं दृष्ट्वा दीनं शोक वाच पि पितरं व्यासं विस्मयोत्फुल्लोचनः अहो माया बलं चोरम् यन्मोहयति पण्डितम् वेदान्तस्य च कर्तारम् सर्वज्ञम् वेदसम्मितम् न जानैका च सा माया किञ्चित् तासातीव दुष्करा या मोहयति विद्वांसम् व्यासं सत्यवती पुराणानां च वक्ता च निर्माता भारतस्य च विभागकर्ता वेदानां सोऽपि मोहम्भागतः साम्यामी शरणं देवीं या मोह इति वै जगत् ब्रह्मविष्णुहरादि च कथान्येषां च कीदृशी क्वप्यस्य त्रिषु लोकेषु युव न मुह्यति मायया यन्मोहं गमिता पूर्वे ब्रह्मविष्णु हराधय वीर्यं देव्या माय एव वशं नीतः सर्वज्ञ ईश्वरप्रभु विष्णुवंश सम्भवो व्यास इति पौराणिकाजगु स्वपि मोहार्नवे मग्नो भग्नभूतो वणि यथा अश्रुपातं गुरु त्यज विवच यथा अहो माया बलं च तद्दुस्त्यजं पण्डितैरपि कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रम किल पञ्चभूतात्मके देहे पिता पुत्रे इति वासुना वरिष्ठा खलु मायम् मायिनाम् अपि मोहिनी करोति रोदनम् द्विज श्रुतो उवाच मनसा देवीम् सर्वकारणकारणाम् जननीम् सर्वदेवानाम् ब्रह्मादीनाम् तथेश्वरीम् पितरम् प्राहदीनम् तोकान्वपरिप्लुतम् अरिशवो व्यास हेतुम्दचनम शुभम पाराश्चर्य महाभाग सर्वेशा बोधन स्वयं किं शोकंे स्वामी यहां तव पुत्रस् नवजाने पूर्वजन्मने कोहम कहाभाग विभ्रमोज महात्म कुरु धैर्य प्रबुद्यस्व मां विशादे मन कृथा मोहजालम् इमं मत्त मुञ्च शोकम् हामते क्षिधानिवृत्तिभक्ष्येण न पुत्रदर्शनेन च पिपासाय जलपानेन याति नैवात्मजे क्षणात् गानम् सुखम् सुगन्धेन कर्णजम् श्रवणेन च स्त्रिसुखम् तु स्त्रिहनुवनम् पुत्रोऽहम् किम् करोमि ते अजीहर्तेन पुत्रोऽपि अजी हरिचन्द्राय भूभुजे पशु काम ये दत् मौल्य सुखाना सानम द्रव्यम धनाचय धनमर्जय लोभ चेत पुत्रोह कौम्यहम मां प्रबोधय बुद्धिया तम दव जोती महामते यने दुर्लभम मनुषं जन्म कर्म भूमो विहान तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले बद्धोऽहमिति मे बुद्धि नापसतितः संसारवासना जले निमित्ता वृद्धिगामिनी सूत उवाच इत्युक्त सुतदा व्यास पुत्रेणामितबुद्धिना पत्युवाच सुखं शान्तं चतुर्था श्रममानसं व्यास उवाच मया भागवतं शुभम् न चाति वीतीर्णम् पुराणम् ब्रह्म सम्मितम् स्कन्धाद्वादश तत्रैव पञ्च लक्षणसंयुतम् सर्वेषाञ्च पुराणानाम् भूषणम् मम सम्मतम् श्रुतमात्रेण दायते येन भागवते नेह तत्पठ त्वम् आमते केनास्मि बालभावेन निर्मितोऽहम् चिदात्मना किमर्थम् केन द्रव्येण कथम् जानामि चाखिलम् इत्येवम् चिन्त्यमानाय मुकुन्दाय महात्मने चोकार्थेन तया प्रोक्तम् भगवत्याखिरार्थम् सर्वम् खलु विदमेवाहम् न निधरसि सनातनम् तद्वचो विघ्नापूर्वम् संविज्ञातम् मनस्यपि केनोक्ता वाग्यम् सत्य चिन्तयामास चेतसा कथम् वेद्मि प्रवक्तारम् त्रिंपुंसौ वा नुंसकम् इति चिन्ता प्रपन्नेन धृतम् भागवतम् हृदि पुनः पुनः कृतो तस्मिन् देवास्त वटपत्रैशया न सन् अभुचिन्ता समन्वितः तदा शान्ता भगवती प्रादुरास चतुर्भुजा शङ्खचक्र गदापन्ना वरा युध धरा शिवा दिव्याम्बरधरा देवि दिव्यभूषणभूषिता संयुता सदृशीभिः च सखीभिः स्वविभूतिभिः प्रादुर्बभूव तर्त्याग्रे विष्णोर्मित तेजसः मन्दहास्यं प्रयुञ्जाना महालक्ष्मी शुभानना उतवाच तां तथा संस्थिता दृष्ट्वा हृदये कमलेक्षणः विस्मितः सलिले तस्मिन् निराधारा मनोरमाम् प्रतिभूति तथा बुद्धिमतीृतिधृतिः श्रद्धा मेधा सुधा स्वाहा क्षुधा निद्रादया गतिः तुष्टि पुष्टि क्षमा लज्जा जृम्भा तन्त्रा च शक्तय संस्थिता सर्व महादेव्या पृथक् पृथक् वरायुधे धरा सर्व नानाभूषणभूषिता बंदारला मुक्ता हिराजिता से संवेक्ष्य तस्ने जल विस्म विचुभव चिंत्यामास सर्वात्मा दृष्ट मुत भूताश्रीय सर्व कम वटदर्भग अस्वे घोरे न्योग हम उथ के शिशम् कृत्वा शुभाकृतिम् ममेयम् जननीनो वा माया वा कापि दुर्घटा दर्शनम् केनचित् अद्य हेतुना किम् मया चात्र वक्तव्यम् गन्तव्यम् वा न वा क्वचित् मम नमास्थाय बालभावात् तन्द्रितः इति श्रीमद्देवी भागवते मा पुराणेष्टादशसहस्राम् संहितायाम् प्रथमत् शुकवैराग्यवर्णनम् नाम